श्री हरगे नमः अथ पञ्चमोऽध्यायः श्रीशुक उवाच राजन्मुदितमेतत्ते हरे कर्माघनासनं गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु पञ्चमो रैवतो मनुस्तामससोदरः बलिविद्यादयस्तस्य सुधा अर्जुनपूर्वकाः न्द्रजन्भूतरयादयः हिरण्यरोमो वेदशिरा ऊर्ध्वबाह्वादयोद्विजाः पत्नीविकुण्ठासुभ्रस्य वैकुण्ठैस्सुरसत्तमहे तयोस्वकलया जज्ञे वैकुण्ठो भगवान् स्वयं वैकुण्ठकल्पितो येन लोको लोकनमस्कृतः रमया देव्या तत्प्रियकाम्यया तस्यानुभावकथितो गुणाश्च परमोदयाः भौमान्द्रेणुन्सविममेयो विष्णोर्वर्णयेद्गुणान् षष्ठश्च चक्षुश्च पुत्र चक्षुषो नाम वै मनुः पूरुपूरुषशुद्ध्युम्न प्रमुखाश्चाक्षुषात्मजाः इन्द्रोमन्ध्रद्रुमस्तत्र देवा आभ्यातयो गणाः मुनयस्तत्र वैराजन् हविष्मद्वीरकाधयः तत्रापि देवसम्भूद्यां वैराजस्याभवत्सुतः अजितो नाम भगवान् अंसेन जगतः पतिः पयोदिन्येन निर्मत्य सुराणां साधिता सुधा भ्रममाणोऽम्बसि धृतकूर्मरूपेण मन्धरः राजोवाच यथा भगवता बृंहन्मतितत्क्षीरसागरः यथर्थं वा यतश्चाद्र्यं दधाराम्बुचरात्मना यथामृतं सुरैः प्राप्तं किञ्जान् एतद्भगवतः कर्म पतस्वपरमाद्भुतं त्वया सङ्कथ्यमानेन महिं नासात्वतां पतेः नातृप्यति मे चित्तं सुचिरं तापतापितं सुत उवाच सम्पृष्ठो भगवानेवं अभिनन्द्य हरेर्वीर्यम् अभ्याचष्टुं प्रचक्रमे श्रीसुख उवाच यदा युद्धे सुरैर्देवा भात्यमाना धायुधैः गता सवो निपतिता नोत्तिष्ठेरन् स्म भूयसः यधा दुर्वासशापात् शेन्द्रालोकस्त्रयो नृपात् निःश्रीकाश्चाभवंस्तत्र नेसरि ज्याधय क्रियाः निशां महेन्द्रवरुणादयः नाद्य गच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् तथो ब्रह्म सभां जग्मोर्मेरोर्मूर्धनि सर्वसहा सर्वं विज्ञापयां चक्रु प्रणथाः परमेष्टिने सभिलोक्येन्द्रभाय्वादीन् निःसत्त्वान् विगदप्रभान् लोकान मङ्गलप्रायान् असुरा न समाहितेन मनसा संस्मरन् परम् उवाचोत्पुल्लवधनो देवांस भगवान भगवान् परः अहं भवो यूयमधो सुराधयो मनुष्यतिर्यग्रुमघर्मजातयः यस्यावतारां सकला विसर्जिता व्रजाम सर्वे शरणं तमव्ययं न यस्य न च नोपेक्षणीया धरणीयपक्षः अतः पि सर्गस्थितिसंयमार्थं दद्धे रजस्तपदमांसि काले अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनां तस्मात् प्रजामशरणं जगद्गुरं स्वानां स नो श्रीशुक उवाच इत्याभाष्यसुरान्वेधा सह देवररिन्दमा अजितस्य पदं साक्षात् जघाम तमसः परं तत्रा दृष्टस्वरूपाय श्रुतपूर्वाय वै विभो स्तुतिम् अभ्रूदैवीभिर्कीर्भिस्तव वहिदेन्द्रियः ब्रह्मोवाच अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कळमप्रदर्घ्यं मनोग्रयानं वचसा निरुक्तं नामामहे देववरं वरेण्यं विपश्चितं प्राणमनोधियात्मना अर्थेन्द्रियाभासमनिद्रमव्रणं चायातपौ यत्र न गृध्रभक्षमक्षरं कन्त्रियुग अजस्य चक्रं ध्वजयेर्यमाणं मनोमयं पञ्चदशारमासु तृणाभिविद्युच्चलमष्टनेमे यतक्षमाहुस्तमृतं प्रबध्येम् येकवर्णं तमसः परं अलोकम् अव्यक्तमनन्तपारम् आसाञ्चकोरोपसुपर्णमीनम् उपासते यो गरतेन धीराः न यस्य कश्चात् यया मुख्यति मुह्यतिवेदनार्थं तं निर्जितात्म आत्मगुणं परेशं न मामभूतेषु समं चरन्तम् इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराभिहे गतिं न सूक्ष्मां विद्महे कुतोषु राद्या पाद उमहीयं स्वकृत्तवीव यस्य चतुर्वितो यत्र हि भूतशर्कः स वै महापूरुष आत्मतन्त्र प्रसीदताम् ब्रह्ममहाविभूतिः अम्बस्तु यत्रेत उदारवीर्यं सिद्ध्यन्ति जीवन्त्युत वर्धमानाः लोकास्त्रयो प्रसीदतां ब्रह्ममहाविभूतिः सोमं मनो यश्च समामनन्ति दिवौकसां वै बलमन्द आयुः ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः अग्निर्मुखं यस्तु अन्तः समुद्रेऽनुपचन् स्वधानोन् प्रसीदतां नः समः विभूतिः यच्चक्षुरासीतरणिर्देवयानं त्रयीमयो ब्रह्मणयेशदिष्ण्यं द्वारं च मुक्थे अमृतं च मृत्युः प्रसीदतां नः प्राणातभूत्यस्य चराचराणाम् प्राणः स को बलमोजस्य वायुः अन्वास्मसम्राजमिवानुघावयं प्रसीदतां नः स महाविभूतिः श्रोद्राद्धिशो यस्य काने प्रजज्ञिरेकं पुरुषस्य नाभ्यः प्राणान्द्रियात्मासु शरीरध्येतं प्रसीदतां नः स महाविभूतिः प्रसादात् मन्योर्गिरीशो दिषणात् केभ्यश्च चन्दां सि ऋषयो मेढ्रथ कः प्रसीदताम् नः स महाविभूतिः विप्रोमुखं ब्रह्मचयस्य गुह्यं राजन्य आसीत् भुजयोर्बलं च ऊर्भोर्विढो जोङ्घ्रि अवेदशूद्रो प्रसीदतां नः स महाविभूतिः लोभो अधरात् पृथिरुपर्यभूत् द्युतिर्नस्तपः सव्यस्पर्शेन कामः भ्रुवोर्यमपक्षभवस्तु प्रसीदतां नः महाविभूतिः द्रव्यं वयः कर्मगुणान् विशेषं यद्योगमाया विहितान् वदन्ती यद् प्रसीदतां नः स महाविभूतिः तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने गुणेषु माया रचितेषु वृद्धिभैर्नः सज्जमानायनभस्वधूतये सत्त्वं नो दर्शयात्मानम् अस्मत्करणगोचरं प्रभन्नानां दिदृक्षूणां सस्मितं ते मुकाम्बुजं तस्तैस्वेच्छाधृतैरूपैर्काले काले स्वयं विभो कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा देहिना विषयार्तानां न ततैर्वार्पितं त्वयि नावमः कर्मकल्पोऽपि विफलायै स्वरार्पितः कल्पते पुरुषस्य क्ष स दयितोहितः यथा हि तरोर्मूलावसेचनम् एवमाराधनं विष्णो सर्वेषाम् आत्मनश्च हि नमस्तु ब्रह्मनन्ताय दुर्वितर्क्यात्मकर्मणे निर्गुणाय गुणेशाय सत्वस्ताय च साम्प्रथम् इति श्रीमद्भागवते महापुराणे अष्टमस्तन्ते अमृतमतने पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनात्मकराजिके जय